नापति एवत् दशकम् मरम यक्षदलै मुदा सुरौगै स्वमुदार सम्मदै उदीर्य दामोदर इत्यभिुत मृदूदर स्वैरमुलूकलेलगन् अदूरतो द्वौकगुबावदीक्षित कुबेरसूनुर्नलकूबरात परोमणि ग्रीव इति प्रताङ्गत मगेच सेवा जिगदश्रिन्मद चिं किल्व विमुवके सुबगायां किल तौम मदोत्क सुराबा यद बहुयौत आवृत विवासौली पर स नारदो बवत्क प्रवण निरैक्षत प्रिया प्रिया लोक मुतवास पुरो निरीक्षापि मदान्तचेतसौ इमौ भवद् भक्त्युपशान्ति सिद्धये मुनिर्जगौ शान्तिम् हृदे कुतः सुखम् युवामवाप्तौ कगुपाद्मताम् चिरम् हरिम् निरीक्षात पदम् स्वमाप्नुतम् गतौ व्रजान्ते कपुबौ बभूवतु अदन्त्रमिन्द्रद्रुयुगम् तदावितम् समेयुषामन्तरगामिना त्वया तिरायितो लूकलरोधनिर्धुतौ शिराय जीर्णौ परिपातितौ तरु अबाजिशाकी द्वितयम् यदा त्वया तदैव महात्पिशायक्षयुगेन तत्क्षणात् अबाजि गोविन्द भवानभिस्तवे इहान्यभक्तोऽपि समेष्यति क्रमाद् भवन्तमेतौ खलु रुद्रसेवकौ मुनिप्रसादाद् गतौ वृणानौ खलु ततस्तरुद्धारणदारुणारव प्रकम्पि सम्पातिनि गोपमण्डले विलज्जिदद्वज्जननी मुकेक्षिणा व्यमोक्षि नन्देन विमोक्षत महीरुहोर्मध्य गतो भदार्भगो हरे प्रभावाद परीक्षतोऽना इति ब्रुवाणैर्गमितो गृहम् भवान् मरुत्पुरादीश्वर पाहि